तपश्च राम सततम् रक्ष्यमाणा दानवैः गान्धर्वेण विवाहेन विवाहं पुरुनः प्रियम् ततोऽस्मत्प्रियकामार्थम् भगवान् मारुतोऽब्रवीत् यथोक्तम् नारदेनाद्य न चिरात् तद्भविष्यति भीष्म उवाच आसाम परमनारीणां वृषभाक्षम् पुरस्कृतम् ददृशुर्देव गन्धर्वा दृष्टीनामिव गोपतिम् तस्य चन्द्रोपमम् वक्त्रमुदीक्ष्यमुदितेन्द्रियाः सम्प्रहृष्टा महाबाहुमिदं वचनमब्रुवन् कन्यकाऊचुः सत्यम्बत पुरा सर्वभूतकृतज्ञश्च महर्षिरपि विष्णुर्नारायणो देव शङ्खचक्रगदासिधृक् सभौमम् नरकम् हत्वा भर्तावो भविता दिष्ट्या तस्यर्षिमुख्यस्य नारदस्य महात्मनः वचनम् दर्शनादेव सत्यं भवितुमर्हति यत्प्रियम्बत पश्याम वक्त्रं चन्द्रोपमम् तु दर्शनेन कृतार्थाः वयमद्य महात्मनः भीष्म उवाच उवाच स यदुःश्रेष्ठः श्रीभगवानुवाच यथाभ्रूत विशालाक्ष्यस्तत्सर्वम् वो भविष्यति भीष्म उवाच तानि सर्वाणि रत्नानि गमयित्वाथ किङ्करैः स्त्रियश्च गमयित्वाथ देवता नृपकन्यकाः वैनतेयभुजे कृष्णो मणिपर्वतमुत्तमम् क्षिप्रमारोपयाञ्चक्रे भगवान्वीसुता सपक्षिगण सव्यालगप शाखा मृगणर्जुष्ट सर शिलात न्यंकु वराहैश्चिच निषेवित्व सतमहासानुं विचिशिखिसकुम तम महेन्द्राज शौरकारगरुपरी पश्यता मुत्पाट्यमिपर्वतम उपेन्द्रम् बलदेवम् च वासवञ्च महाबलम् तम् च रत्नौघमतुलम् पर्वतम् च महाबलः वरुणस्यामतम् दिव्यम् छत्रम् चन्द्रोपमम् महाद्रि स्वपक्षबलविक्षेपैर्महाद्रिशिखरोपमः दिक्षु सर्वासु संरवम् सचक्रे गरुडो वहन्